श्रीहरये नमः अथ सप्तदशोऽध्यायः सोत उवाच तत्र गोमितु राजा हन्यमानम् अनाथवत् दण्डहस्तं च वृक्षलं तदृशे नृपलाञ्छनं वृषं मृणालधवलं मेघन्तमिव बिव्यथं वेपमानं पधैकेन सीतन्तं शूद्रताढितं गां च धर्मधुकान्धीनां वृषं श्रोत्रपदाहतां विवत्सां शाश्रुबधनां क्षामां व्यवसमिच्छति वप्रश्च रथमारूढ कार्तस्वरपरिक्षतं मेघगम्भीर य वाच समारोपितकार्मुकः कस्त्वमच्चरणे लोके बलाद्ंस्य बलान् बले नरदेवोऽसि वेषेण नडवत्कर्मणा द्विजः कस्त्वं कृष्णे गते धूरं सगाण्डीवधन्वना शोच्योऽस्य शोष्यान् रगसे प्रहरन् वधमर्हसे तम्बामृणालधवलपाधे न्यूनः पधाचरन् वृषरूपेण किं कश्चिद् देवो नः परिकेधयन्न जातु पौरभेन्द्राणां धोर्दण्डपरिरम्भिते भूतलेनुपतन्त्यस्मिन् विना प्राणिनां सूचकः मा सौरभेयानुसूचो भेतु ते वृषलाद्भयम् मारोधिरम्बद्रं ते कलानां मयि सास्तरे यस्य राष्ट्रे प्रजा सर्वास्त्रयस्यन्ते सात्व्यसाधुभिः तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः येष राज्ञां परो धर्मो को वृश्च तव पादां स्त्रीन् सौरभेय चतुष्पदा मा भूवंस्तवा तृषा राष्ट्रे राज्ञां कृष्णानुवर्तिना साधूनामकृतागसाम् आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणं जनेनागस्य गं युञ्जन् सर्वतोस्य च मद्भयं साधूनां भद्रमेव स्यात् असाधु धमने कृते अनाघस्विकभूतेषो साक्षात् अमर्त्यस्याभि साङ्गतं परमो धर्मस्वर्मस्थानुपालनं सा सधोऽ्यान्यथा शास्त्रम् अनभत्युत्पतानिह ये तंडवे याना युक्त वचहा युणगणेष भगवान्ता न वयम क्ले बीजा यत बीजानीम वाक्यभेद विमोिता कैचि विकलवसन आहुरात्मा दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् अप्रदर्ग्यात् अनिर्देश्यात् इति केष्वपि निश्चयः अत्रानुरूपं राजर्षे विमृशस्वमनीषया सूत उवाच एवं धर्मे प्रवधतिः स सम्राट् द्विजसत्तमा समाहितेन मनसा विघेतः पर्यचष्टथं राजोवाच धर्मं प्रवीक्षि धर्मज्ञधर्मोऽस्ति वृषरूपधृक् यदधर्मकृतस्थानं सूचकस्यापि तद्भवेत् अथ वा देवमायाया नूनं गतिरगोचर चेतसो वचसश्चापि भूता नामीति निश्चयः तपश्शौचं दया सत्यम् इति कृताः अधर्मां सैस्त्रयो भग्ना स्मयसङ्गमधैस्तव इदानीं धर्मपाधस्ते सत्यं निर्वर्तयेद्यतः तं जिकृक्षत्यधर्मोऽयम् अनृतेनैधितः कलिहे इयं च भूर्भकभथा यासिधोरुभरा सती श्रीमद्भिस्तत्पदन्यासै सर्वतः कृतकौतुक सोचत्यश्रुकलासाध्वी दुर्भगे ओर्जिताधुना अब्रह्मण्या नृभव्याजा सूत्रा इति धर्मं महीं सैव शान्त्वयित्वा महारथः निषाधमाददे खड्गं धर्महेतवे तं जिघां सुम्मभिप्रेत्य पिकाय नृपलाञ्छनं तत्पादमूलं शिरसा शमघाद्भयविह्वलहान् पतितं पादयोर्बीरकृपया दीनवत्सलहान् शरण्यो नावीचलोक्य राजोवाचा न बद्धाञ्जलेर्वैभयमस्ति किञ्चेत् न भवता कथञ्चन क्षेत्रे मतीये अधर्मबन्धुः त्वां वर्तमानं नरदेवदेहेश्वनो प्रवृत्तोऽयमधर्मभूकहा लोभो नृतं शौर्यम् अनार्यमं हो चेष्टा कलहुश्च धम्भः न तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ब्रह्मा वर्त ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञविधानविज्ञाः यस्मिन् हरिर्भगवन् यजमान इज्या मूर्तिर्यजधांश तदो धे कामनमोगांस्थिरजङ्गमान अन्तर्बहिर्वा युरिवैश आत्मा सूतौ वाच परीक्षित्येव माधिष्ठः सकलेर्जातवे बधुहा तमुद्यतासि माहेधं धं। यत्र क्वचन सार्वभौमतवाज्ञया लक्षये तत्र तत्रापि त्वात्मा तेषु सरासनं धन्मे धर्मभृधां श्रेष्ठस्थानं निर्दिष्टुमर्हसे यत्रैव नियतो मत्स्य आदिष्टं स्तेऽनुशासनं सूत उवाच अप्यर्थितस्तधा तस्मै स्थानानि कलये द्यूतं पानं स्त्रियः सूना यत्रा धर्मश्चतुर्वितः पुनश्च याचमानाय या जातरूपमधात्प्रभो तथो नृतं मतं कामं रजो वैरं च पञ्चमम् अमूनि पञ्चस्थानानि ह्यधर्मप्रभवः कलिहे औत्तरेयेण धत्तानि न्यवसस्तन्निदेशकृत अतैतानि स सेवेत भूपेषु विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः वृषस्य नष्टान् स्त्रीन् पाधान् तपः शौचं प्रतिसन्दत आस्वास्य महीं समवर्धयत् स एषयेतर्ह्यद्यास्त आसनं पार्थिवोचितम् पितामहेनोपन्यस्तं राज्ञारण्यं विविशतहास्ते धुना स राजर्षे गजाक्वये गजाह्वये महाभाकचक्रवर्ते मृगश्रवाः इत्थं भूतानुभावोऽयम् अभिमन्युसुधो नृपः यस्य पालयुतक्षोणिं यूयं सत्रायधीक्षिताः इति श्रीमद्भगवते महापुराणे प्रथमस्कन्ते कलिनिग्रहो नाम सप्तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द सद्गुरु महराजिकी जय